श्रीमद्भागवत् महापुराणं पञ्चमस्कन्ध पञ्चमोऽध्यायः न ब्राह्मणैन्तुलये भूतमन्यत्पश्यामि विप्रा किमत परं तु यस्मिन्नपि त्रहुतं श्रद्धयाहमस्नामि तथाग्निहोत्रे दीता तनुर्सती मे पुराणी येनेह सत्त्वं परमं पवित्रम् समोदमसत्यमनुग्रहस्य तपस्थितीक्षानुभवस्य यत्र मद्दोऽप्यनन्तात्परतः परस्मान् सर्गापवर्गाधिपतेन किञ्चित् येषां किमु स्यादितरेण तेषाम् अकिञ्चनानां मयि भक्तिभाजां सर्वाणि मध्येष्णतया भवद्भे चराणि भूतानि सुता सम्भावितव्यानि पदे पदेवो विविक्तदिग्भ्ये तदुहाहलं मे मनोवचोदेकरणैः तस्य साक्षात्कृतं मे परिवर्हणं हि विना पुमान्यविमोहान् कृतान्तपाशान्नविमोक्तुमीशे ते सो एवमनुषास्यात्मज्ञान स्वयम् अनुशिष्टारपि लोकानुशासनार्थं महानुभाव परमश्रीद्भगवान् शुभमं भापदेश उपशमशीलानाम् उपरत कर्मणां महामुनीनां भक्तिज्ञानवैराग्यलक्षणम् पारं हंस्य धर्मम् उपशिक्षमाण स्वतनं तज्येष्ठं परं भागवतं भगवज्जनपरायणं भरतं धरणीपालनायाभिषिञ्च स्वयं भवन एवोर्वरीतशरीरमात्रपरिग्रह उन्मद्दैव गगनपरिधान प्रकर्णकेश आत्मन्यारोपिताः वनीयो ब्रह्मावर्ता प्रव्रं प्रव्रं्राजानन्धमुखबधिरं पिसाचोन्मादकवदवधूतव्येषोऽभिभाषमाणोऽपि जनानां गृहीतमौन व्रततुष्टिं बभूव तत्र तत्र पुरुग्रामाकरकुङ्खेटवाटखरवटशिबिरं ध्वजं घोषसार्धगिरिवनाश्रमादिषु अणों पथमवनिचरापथसदैपरी भूयपालो मक्षिकाभिरेवं वनगतं वनं वनं गजं तर्जनं ताडनावं देहनष्ठे वनग्रावसकृद्रज प्रक्षेपूतिं पूति वा तदुरुक्तं तद्विगणयन्ने वासंसान एतस्मिन् देहोपलक्षणे सदुपदेश उभयानुभवस्वरूपेण स्वमहिमावस्थाढीनां समारोपित अहं ममाभिमानत्वां दवी खण्डितं मना पृथिवी मेकचर अतिसुकुमारकरचरणोरःस्थलविपुलं बाह्व गलवदनाद्यवयवविन्यास जगतिसुन्दरस्वभावं हास सुमुखो नवनलिनं दलायामानशिशिर तारुणायतं नयनरुचिरसदृशसुभगकपोलकर्णकण्ठनाशो विभूषस्मित ददनमहो शवेनां पुरं पुरवनीतानां मनसि कुसुमान्तरासनमुपन्दधानरागवलम्बवाल कुटिलजटिलकपिशकेशभूरिभारोऽवधूतमलिननिजशरीरेण ग्रहगृहीत इवा दृश्यत यर्हि वावश भगवान् लोकमिमं योगस्याद्धा प्रतीपमिवाचक्षालं ल तत्प्रति क्रियाकर्म विभसितमिति प्रथमाजुगं जर्मास्थितः स यान एवास्नाति पिभति खादत्यवमेवहति हजति स्म चेष्टमान उज्जलित आदिग्धोद्देशस्तस्य हय परिपुरीशं सुरभिः सौगन्धवायोस्तं देशं दशयोजन् समन्तासुरभिं चकार एवं गोमृगकाकचर्यया व्रजन्ते सनाशीनशयानकाकमृगभूं गोचरितः तिबते खादत्यवं न मेहते स्म ज्यति नानायोगचर्याचरणो भगवान् कैवल्यपतिर्षभो विरतपरमहानन्दानुभव आत्मनि सर्वेषां भूतानाम् आत्मभूते भगवति वासुदेव आत्मनो व्यवधानान्तरोदरभावेर्तिद्धसमस्तार्थपरिपूर्णो योगेश्वर्याणि वैहाय परकाय जूर समलो जवान्तर्धानपरकाय प्रवेशदूरग्रहणादि यदीक्षयोपगतादीन्नाञ्जसानुप्रसीनाभिनन्दत ते श्रीमद्भागवते महापुराणे पारंशां तेतायां पञ्चमस्कन्धे त्रिसप्देवानुचरते पञ्चमोऽध्यायः